स्वस्ति नौमितामश्विना मी भगस्वस्ति देव्यदितिरनर्वणा स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्या वापृथिवी स्वस्ति ोमितामश्विना मी भगः स्वस्ति देव्यदितिरनर्वणाः स्वस्ति पूषा असुरो दधातु स्वस्ति द्यावापृथिवी शुचेतुना स्वस्ति तिनोमि तामश्विना भगस्वस्ति देव्यदितिरनर्वणा